महानारायणोपनिषत् ॐ सहनावतु सहनौ भुनक्तु सह वीर्यङ्करवा वफै तेजस्विनावधितमस्तु मा विद्विषावफै ॐ शान्तिः शान्तिशान्तिः अम्भस्य पारे भुवनस्य मध्ये नाकस्य पृष्ठे महदो महीयान् शुक्रेण्योदिगंषि समनुप्रविष्टप्रजापदिश्चरधिगर्भे अन्धः निदगं संच विचैदि सर्वै यस्मिन् देवा अधिविश्वे निषेधुः तदेव भूदं तदुभव्यमा तदक्षरे परमे व्योमन् येनावृतं कञ्च दिवं महीं च येनादित्यस्तपदितेजसाभ्राजसा च यमन्दः ये कवयो वयन्ति यदक्षरे परमे प्रजाः यतस्त प्रसूदा जगतः प्रसूदितो येन जीवान्व्यचसर्जभूम्या यदोषधिभिः पुरुषान् पशुगुश्च विवेशभूतानि चराचराणि अधः परं नान्यदणि यशगुं हि परात् परं यन्महदो महान्तम् यदेगमव्यक्तमनन्दरूपं विश्वं पुराणां तमसः परस्ताद तदेव तदु सत्यमाहुस्तदेव ब्रह्मपरमं कवीनां इष्टापूर्तं बहुधा जायमानं विश्वं बिभर्ति भुवनस्य तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमाः तदेव शुक्रममृतं तद्ब्रह्म सर्वे निमेषा ज्ञे विद्युदः पुरुषा दधि अर्थमासामासा ऋतवसंवत्सरश्च कल्पन्तां स आपः प्रदुखे उभे मे अन्तरिक्षमधोऽसुभः नैनमूर्ध्वं न तिर्यं च परिजग्रभद न तस्येषे कश्चन न सन्दृशे तिष्ठतिरूपमस्य न चक्षुषा पश्यति कश्चनैनं हृदा मनीषा मनसाभिकृप्तो येन विदुरमृदास्ते भवन्धि अभ्यस्सम्भुदो हिरण्यगर्भ इत्यष्टौ एष हि प्रदिशो नु सर्वाः हि जातः स उ गर्भे अन्तः स विजायमान स जनिष्यमाणः प्रत्यङ्मुखास्तिष्ठति विश्वतोमुखः विश्वतश्चक्षुहृद विश्वतोमुखो विश्वतोहस्त उद विश्वतस्पाद संबाहुभ्यां नमधिशम्पदत्रैर्द्यावापृथिवी जनयन् देव एकः व्येनस्तत्पश्यन्विश्वा भुवनानि विद्वान्यत्र विश्वं भवत्येगनीलं यस्मिन्निदगं संच विचैकगं स ओधः प्रोतश्च प्रजासु वे चे विद्वान् गंधर्वो नाम निहितं गुहासु त्रीणि पदानिहिदा गुहासु यस्तद्वेदसविदुः पिधा सद स नो बन्धुर्जनिदासविधामानि वेदभुवनानि यत्र देवा अमृतमानशानास्तृतीये धामान्यभैरयन्त परिद्यावापृथिवीयन्दिसद्यः परिलोकान्परिदिश्यः परिसुवः ऋतस्य तन्दुं वितदं विसृत्य तदपश्यत्तदभवत्प्रजासु परीत्य लोकान् परीत्य भूतानि परीत्य सर्वाः प्रतिशोदिशश्च प्रजापतिप्रथमजाहृतस्यात्मनात्मानमभिषम्बूव सदशस्पदिमद्भुतं प्रियमिन्द्रस्य काम्यं शनिं मेधामया शिशम् उद्दीप्यस्वजाधवेदोपघ्ननिहृदिं मम पशुगुश्च मह्यमावह जीवनं जदिशो दिश मानोहिगुं सिजाधवेदो गामश्वं पुरुषं जगद अभिब्रदग्न आगहि श्रिया मा परिपातय गायत्रीमन्त्राः पुरुषस्य विद्म सहस्राक्षस्य महादेवस्य धीमहि तन्नो रुद्रः प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्धिः प्रचोदयात् तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तन्नो नन्दिः प्रचोदयात् तत्पुरुषाय विद्महे महासेनाय धीमहि तन्नषण्मुखः तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि तन्नो गरुडः प्रचोदयाद वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्मप्रचोदयात् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् वज्रनखाय विद्महे तीक्ष्णदघृष्ठ्राय धीमहि तन्नो नारसिगुंहः प्रचोदयात् भास्कराय विद्महे महद्युधिकराय धीमहि तन्नो आदित्यः वित्महे लालीलाय लालीलायम तनो अग्नि प्रचोदयाद कायनाय विमहे कन्याकुमारीमे तो दूर्वा दूर्वासूक सहस्रपरमादेवी शदमूला शदाङ्घुरा सर्वगं करतु मे पापं दुर्वा दुःस्वप्ननाशनी काण्डात् काण्डात् प्ररोहन्ती परुषः परुषः परी ये वा नो दुर्वे प्रदनुसहस्रेण शतेन च या प्रतनोषि प्रतनोषिसहस्रेण विरोहसि तस्यास्ते देवीष्टके विधेमहविषा वयम् अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरा शिरसा धारयिष्यामि रक्षस्व मां पदे पदे मृत्तिका सूक्तम् भूमिर्धेनोर्धरणी लोकधारिणी उद्धृतासि वराहेण कृष्णेन शतबाहुना मृत्तिके कनमे पापयन्मया दुष्कृतं कृतं मृत्तिके ब्रह्म दत्तासि काश्यपेनाभिमन्त्रिता मृत्तिके देहि मे पुष्टिं त्वयि सर्वं प्रतिष्ठितं मृत्तिके प्रतिष्ठिते सर्वं तन्मे निर्नुदमृत्तिके तया हदेन पापेन गच्छामि परमां गतिम् शत्रुजयमन्त्रः यद इन्द्रभयामहे तदो अभयम् कृधि मखवञ्चग्धितव तन्न ऊदये विद्विषो विमृधो जहि स्वस्तिदा विषस्पतिर्वृत्रहा विमृधो वशी वृषेन्द्रः पुरयेतु नः स्वस्तिदा अभयङ्करः स्वस्ति न इन्द्रो वृद्धश्रवा स्वस्ति नः विश्ववेदाः स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिस्वस्तिनो बृहस्पतिर्दधातु आपान्दमन्युस्त्रिपलप्रभर्माधुनि सिमी वाञ्छमागुं ऋजीषी सोमो विश्वान्यतसवनानि नार्वागीन्द्रं प्रदिमानानि देभुः ब्रह्मजज्ञानं प्रथमं पुरस्ताद्विषिमधस्सुरुचो वेन आवः स बुध्नि या उपमा अस्य विष्टा सतश्च योनिमसतश्च विवह भवानृक्षरा निवेशनी यच्छानः शर्म सप्रधाः गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीं ईश्वरी गुं सर्वभूतानां तामिहोपह्वये श्रियं श्रीर्मे भजतु अलक्ष्मीर्मे नश्यदु विष्णुमुखा वै देवाश्चन्दोभिरिमाल्लोकाननपजय्यमभ्यजयन् महागुंजिन्द्रो वज्रबाहुषोडशी शर्म यच्छदो स्वस्ति नो मघवाकरो दुहन्तुपाप्मानं योऽस्मान् द्वेष्टि सोमानघ्स्वर्णं कृणुहि ब्रह्मणस्पदे कक्षी वन्दय्य औषिजम् शरीरैयज्ञशमलं कुसीदं तस्मिन् सीदधु योस्मान् द्वेष्ठी चरणं पवित्रं विदधं पुराणं येन पूदस्तरदि दुष्कृतानि तेन पवित्रेण शुद्धेन पूता अधिपाप्मानमरादिं तरेम सजोषा इन्द्रशगणो मरुद्भिः सोमं पिब वृत्रकञ्चूरविद्वान् जहि शत्रु गुम्रपमृधो नुदस्वाधा भयं कृणुहि विश्वतो नः सुमित्रा न आप ओषध संदु सन्धु दुर्मित्रास्तस्मै भूया सूर्योऽस्मान्द्वेष्टि यञ्च वयं द्विष्मः आपोहिष्ठामयो भुवस्थानवूर्जे दधातन महेरणाय चक्षुषे यो वशिवतमो रसस्तस्य भाजयते उशतीरिवमातरः तस्मा अरङ्गमामवो यस्य क्षया यजिन्वध आपो जनयथा च अखमर्षण सूक्तम् हिरण्यशृङ्गं वरुणं प्रपद्ये तीर्थं मे यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रदिग्रहः यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतं तन्न इन्द्रो वरुणो बृहस्पतिसविता च पुनन्तु पुनःपुनः नमोऽग्नयेसुमदे नम इन्द्राय नमो वरुणाय नमो वारुण्यै नमोऽभ्यः यतपाङ्क्रोरैयदमेभ्यै्यदशान्तं तदपगच्छतात् अत्याशनादधिपानाद्यच्च उग्रात् प्रतिग्रहात् तन्नो वरुणो राजा पाणिनाह्यवमर्षतु सोकमपापो विरजो निर्मुक्तो मुक्तगिल्बिषः नाकस्य पृष्ठमारुह्य गच्छेद्ब्रह्मसलोकतां यश्चाप्सु वरुणः स पुनात्वकमर्षणः इमं मे गङ्गे शुदुद्धृस्तो मघुं सचता परुष्णीया अशिक्निया मरुद्वृधे वितस्तयार्जिकीये शृणुह्या सुषोमया ऋतं च सत्यञ्चाभिद्धा तपःसोऽध्यजायत ततो रात्रिरजायत तदः समुद्रोऽर्णवः समुद्रदर्णवा दधि संवत्सरोधोरात्रिद्व विश्व मिषद वशी सूर्या चंद्रम सौधमक दिवच पृथिवी चांदरीक्ष पृथिव्याघुं रजस्वमान्तरिक्षे विरोदसी इमागस्तदापोवरुणः पुना त्वखमर्षणः पुनन्द्वसवः पुनादुवरुणः पुना त्वखमर्षणः एष मध्ये भुवनस्य गोप्ता एष पुण्यकृतां लोकानेष मृत्योर्हिरण्मयं द्यावापृथिव्योर्हिरण्मयगं सग्स्रुदगुं सुवः सनः सुवः सगुं शिशाधि आर्द्रं ज्वलदिज्योतिरहमस्मि ज्योतिर्ज्वलदिब्रह्माहमस्मि योऽहमस्मि ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहं मां जुहोमि स्वाहा अकार्यकार्यवकीर्णिस्तेनो भ्रूणः गुरुतल्पगः वरुणोपामखमर्षणस्तस्मात् पापात् रजो भूमिस्त्वमागुं रोदयस्वप्रवदन्ति धीराः आक्रान्समुद्रप्रथमे विधर्मन् जनयन्प्रजाभुवनस्य राजा वृषापवित्रे अधिसानो अव्ये सोमो वावृधे सुवान इन्दुः दुर्गाः सूक्लम् जादवेदशे सुनवामसोमरादि यदो निदहादिवेदः स नःपरिषदधिदुर्गाणि विश्वा नावेव सिन्धुं दुरिदात्यग्निः तामग्निवर्णां तपसाज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्ठा दुर्गान् देवी गुंशरनमहं प्रपद्ये सुतरसितरसे नमः अग्ने त्वं पारय नव्यो अस्मान् स्वस्तिभिरधि दुर्गाणि विश्वा पूश्च पृथ्वी बहुलान उर्वी भवातोकाय तनयायशय्योः विश्वानिनो दुर्गः जादवेद सिन्धुर्नना अग्ने अत्रिवन्मनसा गृणानोऽस्माकं बोध्यविदातनूना पृतनाजिदगुं सहमानमोऽग्रमग्निगुं हुवेम परमात्सधस्तात् स नः परिषदधिदुर्गाणि विश्वा क्षामद्देवो अधिदुरिदात्यग्निः प्रत्नोषिकमीढ्यो अध्वरेषु सनाच्च होदा नव्यश्च सत्सी स्वाञ्छ अग्ने तनुवं पिप्रयस्वास्मभ्यं च गोभिर्जुष्टमयुजो निषिक्दं तवेन्द्र विष्णोरनुसञ्चरेम नाकस्य वसानो वैष्णवीं लोक इहमादयन्ताम् व्याहृदि होममन्त्राः भूरन्नमग्नये पृथिव्यै स्वाहा भुवोन्नं वायवेन्दीक्षाय स्वाहा सुवरन्नमादित्याय दिवे स्वाहा भूर्भुव सुवरन्नं चन्द्रमस्येदिग्भ्य स्वाहा नमो देवेभ्यः स्वधा पितृभ्यो भूर्भुव सुवरन्नमो भोरग्नये पृथिव्यै स्वाहा भुवो वायवेन्दरिक्षाय स्वाहा सुवरादित्याय दिवे स्वाहा भूर्भुवः सुवश्चन्द्रमसे दिग्भ्यः स्वाहा नमो देवेभ्यः स्वधा पितृभ्यो भूर्भुवः सुवरग्न ओ भूरग्नये च पृथिव्यै च महते स्वाहा भुवो वायवे चान्तरिक्षाय महते स्वाहा सुवरादित्याय च दिवे च महते च सुवश्चन्द्रमसे जनक्षत्रेभ्यश्च दिग्भ्यश्च महते स्वाहा नमो देवेभ्यः स्वधा भोर्भुवः भो सुवर्म हरो ज्ञानप्राप्त्यर्था होममन्त्राः पाहिनो अग्नयेन से स्वाहा पाहिनो विश्ववेदसे स्वाहा यज्ञं पाहि विभावसो स्वाहा सर्वं पाहि शतक्रतो स्वाहा पाहि नो अग्न एकया पाह्युदद्वितीयया पाह्युर्जन्तृतीयया पाहि गीर्भिश्च तसृभिर्वसो स्वाहा वेदाविस्मरणाय जपमन्त्राः यश्चन्दसा मृषभो विश्वरूपश्चन्दोभ्यश्चन्दा गृहस्याविवेश स चागुंसिख्यः पुरो वचोपनिषदिन्द्रो ज्येष्ठ इन्द्रियाय ऋषिभ्यो नमो देवेभ्य स्वधापितृभ्यो भूर्भुवसुवच्छन्द नमो ब्रह्मणे धारण मेऽस्त्वनिराकरणं धारयिदा भूयासङ्कर्णयो श्रुतं माच्योढ्वं ममामुष्य तपःप्रशंसा ऋतं तपःसत्यं तपःश्रुतं ताप तपःशान्तं तपोदमस्तपःश्शमस्तपो दानं तपोयज्ञं तपोभोर्भुवसुवर्भ्रह्मैतदुपास्यैतत्तपः विहिताचरणप्रशंसा निषिद्धाचरणनिन्दा च यथा वृक्षस्य सम्पुष्पितस्य दूराद्गन्धो वात्येवं पुण्यस्य कर्मणो दूराद्गन्धो वादि यथा सिधारां कर्ते वहिदामवक्रामे यद्युवे युवे ह पदिष्यामीत्येवममममृतादात्मानं जुगुप्सेत् दहरविद्या अणोरणीयान्महदो महीयानात्मा गुहायां निहितोऽस्य जन्तोः तमक्रतुं पश्य दिविदशोको धातुः प्रसादान्महिमानमीशम् सप्त प्राणाः प्रभवन्ति तस्मात् सप्ताचिषसमिधः सप्त जिह्वाः सप्त इमे लोका येषु च रन्ति प्राणा गुहाशया निहितास्सप्त सप्त अतः समुद्रा गिरजश्च सर्वरूपाः अतस्च विश्वा ओषधयो रसा च येनैष भूतस्तिष्ठत्यन्तरात्मा ब्रह्मादेवानां पदवीकवीनां महिषो मृगाणां श्येनो गृध्राणाग् स्वधिदेर्वनानागं सोमः पवित्रमत्येधिरेभन् अजामेका लोकितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीगुं सरूपाम् अजो ह्ये को जुषमाणोऽनुषेदे जहात्येनां भुक्त भोगात्मजोन्यः अगुं सशुचिषध्वसुरन्तरिक्षसद्धोदा वेदिषदतिधिर्दुरोणसद नृषद्वरसधृदसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् घृतं मिमिक्षिरे घृतमस्य यो निर्घृदे श्रुतो घृतमु वस्यधाम अनुश्वथमावकमादयस्व स्वाहा कृतं वृषभक्षि हव्यम् समुद्रा दोर्मिर्मधुमागुम् उदारदुपागुं शुना सममृतत्वमानडकृतस्य नाम गुह्यं यदस्ति जिह्वादेवानामृतस्य नाभिः वयं नाम ब्रभ्रवाम हृदेनास्मिन् यज्ञे धारयामा नमोभिः उपब्रह्मा शृण्वच्छस्य मानं चतुःशृङ्गोऽद् गौरये दधत् चत्वारि शृङ्गारत्रयो अस्य पादाद्वे शीर्षे सप्तहस्थासो अस्य त्रिधा वृषभो रोरवीधिमहो देवो मर्त्यागुम् आविवेश त्रिधाहिदं पणिभिर्गुह्यमानं गविदेवासो कृदमन्वविन्दन् इन्द्र एकगुं सूर्य एकञ्जान वेणा देगघ्स्वधया निष्टतक्षुः यो देवानां प्रथमं पुरस्ताद्विष्वाधियो रुद्रो महर्षिः हिरण्यगर्भं पश्यदजायमानगुंस नो देवः शुभया स्मृत्या संयुनक्तु यस्मात्परं न परमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चिद् वृक्ष इव नेदं पूर्णं पुरुषेण सर्वम् न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः परेण नागं निहितं गुहायां विभ्राजदे दध्यदयो विशन्ति वेदान्तविज्ञानसुनिश्चितार्था संन्यासयोगाद्यतयः शुद्धसत्त्वाः ते ब्रह्मलोके दुपरान्धकाले परामृतात् परिमुच्यन्ति सर्वे ए दह्रं विपापं परमेश्मभोदयत्पुण्डरीकं पुरमध्यसद्गुष्ठं तत्रापि दह्रं गगनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यं यो वेदादौ स्वरप्रोक्तो वेदान्ते च तस्य प्रकृतिलीनस्य यः परः स महेश्वरः नारायणः सूक्तम् सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवं विश्वं नारायणं देवमक्षरं परमं पदं विश्वधः परमान्नित्यं विश्वं नारायणगुं हरिम् विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति पदिं विश्वस्यात्मेश्वरगं शाश्वदघुं शिवमच्युतं नारायणं महाज्ञेयं विश्वात्मानं परायणं नारायणः परो ज्योतिरात्मा नारायणः परः नारायणपरं ब्रह्मतत्त्वं नारायणः परः नारायणपरोध्यादाध्यानं नारायणपरः यत् च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्थितः अनन्दमव्ययं कविगुं समुद्रेऽधं विश्वशम्भुवम् पद्मकोशप्रदीकाशगुं हृदयं चाप्यधो मुखम् अधो निष्ठ्या विधस्त्यान्दे नाभ्यामुपरि तिष्ठति ज्वालमालाकुलम्भादी विश्वस्यायतनं महद सन्ततगुं शिलाभिस्तु लम्बत्या तस्यांदे सुषिरगं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् तस्य मध्ये महान् अग्निर्विश्वार्चिर्विश्वतोमुखः सोऽग्रभुग्विभजन् तिष्ठन्नाहारमझरः कविः तिर्यगूर्ध्वमधशायी रश्मयस्तस्य सन्तता सन्तापयदि स्वं देहमापादतलमस्तकः तस्य मध्ये वह्निशिखा अनीयोर्ध्वा नीलतो यदमध्यस्ताद्विद्युल्लेखेवभास्वरा निवारशोकवत्तन्वीपीदा नी तस्या शिखाया मध्ये परमात्मा व्यवस्थितः स सशिवः स हरिः आदित्यमण्डले परब्रह्मोपासनम् आदित्यो वा तपदि तत्रता ऋचस्तदृचा मण्डलगम् सर्चाल्लोकोदय एष एतस्मिन् मण्डलेर्चिर्दीप्यधे तानि सामानि ससाम्नाल्लोकोध ययेष एतस्मिन् मण्डलेर्चिषि पुरुषस्थानि यजुगुंषि स यजुषा मण्डलगुं स विद्यातपदि य एषोऽन्तरादित्ये हिरन्मयः पुरुषः आदित्यपुरुषस्य सर्वात्मकत्वप्रदर्शनम् आदित्यो वैतेज ओजो बलं यशश्चक्षुश्रोत्रमात्मा मनो मन्युर्मन्युर्मृत्युः सत्यो मित्रो वायुराकाशप्राणो लोकपालः खः जीवो विश्वकथमः स्वयम्भुब्रह्मै तदमृत एष पुरुष एष भूतानामधिपतिर्ब्रह्मणः देवतानागुं सायुज्यगुम् साष्टितागुं समानलोकतामाप्नोदि य एवं वेदेत्युपनिषत् शिवोपासनमन्त्राः निधनपदये नमः निधनपदान्तिकाय नमः ऊर्ध्वाय नमः ऊर्ध्वलिङ्काय नमः हिरण्याय नमः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 सद्यो जादं प्रपद्यामि सद्यो जाताय वै नमो नमः भवे भवे नादिभवे भवस्व मां भवोद्भवाय नमः उत्तरवक्त्रप्रतिपादकमन्त्रः वामदेवाय नमो ज्येष्ठाय नमश्रेष्ठाय नमो रुद्राय नमःकालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूदमनाय नमो मनोन्मनाय नमः दक्षिणवक्त्रप्रतिपादकमन्त्रः अखोरेभ्योऽधोरेभ्योऽघोरखोरतरेभ्यः सर्वेभ्यः सर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः प्राग् वक्त्रप्रतिपादकमन्त्रः तत्पुरुषाय वित्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ऊर्ध्ववक्त्रप्रतिपादकमन्त्रः ईशानस्सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवो नमस्कारार्थमन्त्राः नमो हिरण्यबाघवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपदयेऽम्बिकापदय उमापदये पशुपतये नमो नमः हृदगुंसत्यं परं ब्रह्मपुरुषं कृष्णपिङ्गलं ऊर्ध्वरेदं विरूपाक्षं विश्वरूपाय वै नमो नमः सर्वो वैरुद्रस्तस्मैरुद्राय नमोऽस्तु पुरुषो वैरुद्रस्सन्महो नमो वै नमः विश्वम्भोदम्भुवनं चित्रं बहुधाजादं जायमानं च यद् सर्वोह्यशरुद्रस्तस्मैरुद्राय नमो अस्तु कद्रुद्राय प्रचेतसे मेढुष्ठमायतव्यसे वोचे मशन्तमघुं हृदे सर्वो ह्यशरुध्रस्तस्मैरुद्राय नमोऽस्तु अग्निहोत्र हवण्याह उपयुक्तस्य वृक्ष विशेष योत्रहवीति प्रत्यवाहुतो प्रतिणुष्व भूदेताकमंत्र आदिर्देवा गनुष्यासुरास्ागूता मेदिनी महदा मही सात्री गायत्री जगत्ुर्वी पृथ्वी बहुलाश्वा भूदा कदमा का, का सा सत्त्यमृते दिवसी सर्वा देवता आपः आपो वा इदघं सर्वं विश्वा भूतान्यापः प्राणा वा आपः पशव आपोऽन्नमापो मृतमापः सम्राडापो विराडापः यजो विश्यापः सत्यमाप सर्वाद्देवता आपो भूर्भुवः सुवराप ओ सन्ध्यावन्दनमन्त्राः आपः पुनन्तु पृथिवीं पृथिवीपूदा पुनादुमां पुनन्दु ब्रह्मणस्पतिर्ब्रह्मपूदा पुनादुमां यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम सर्वं पुनन्तु मापो सतां च प्रदिग्रह्यग् स्वाहा अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्तां यदग्ना पापमकार्षं मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिष्णा अहस्तदवलुम्बदु यत्किञ्चदुरिदं मयि इदमह मामृदयो नौ सत्येज्योतिषि जुहोमि स्वाहा सूर्यश्च मामन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्तां यद्रात्र्या पापमकार्षं मनसा वाजाहस्ताभ्याम् पद्भ्यामुदरेण शिष्णा रात्रिस्तदवलुम्पदु यत्किञ्च दुरिदं मयि इदमह मामृदयो नौ सूर्ये ज्योतिषि जुहोमि स्वाहा अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्तां यदह्ना पापमकारषं मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना अहस्तदवलुम्पदो यत्किञ्च दुरिदं मयि इदमह मामृदयो नौ सत्ये ज्योतिषि जुहोमि स्वाहा सूर्यश्च मा मन्युश्च मन्युपतयश्च पावेभ्यो रक्षन्तां यद्रात्र्या पापमकारृषं मनसा वाचा हस्ताग्भ्यां पद्भ्यामुदरेण शिश्णां रात्रिस्तदवलुम्पदु यत्किंचदुरिदं मयि इदमह मामृदयो नौ सूर्ये ज्योतिषि जुहोमि स्वाहा प्रणवस्य ऋष्यादि विवरणम् ओमित्येकाक्षरं ब्रह्म अग्नेर्देवता ब्रह्म इत्यार्षं गायत्रं छन्दं परमात्मं स्वरूपं सायुज्यं विनियोगं गायत्र्यावाहनमन्त्राः आयादुवरदा देवी अक्षरं ब्रह्मसंमिदम् गायत्रीं छन्दसां मादेदं ब्रह्मजुषस्व मे यदह्नात् कुरुदे पापं तदह्नात् प्रतिमुच्यते यद्रात्र्यात् कुरुदे पापं तद्रात्रियात् प्रतिमुच्यते सर्ववर्णे महादेवी सन्ध्या सरस्वती ओजोषि सहोसि बलमसि भ्राजोषि देवानां धामनामासि विश्वमसि विश्वायुः सर्वमसि सर्वायुरभिभूरों गायत्री मावाहयामि सावित्री मावाहयामि सरस्वती मावाहयामि छन्दषीनावाहयामि श्रियमावाहयामि गायत्र्या गायत्री छन्दो विश्वामित्रऋषिसविधा देवताग्निर्मुखं ब्रह्मा शिरो शिरोविष्णोर्हृदयगं रुद्रशिखा पृथिवी योनिः प्राणापानव्यानोदान समाना सप्राणाश्वेदवर्णा साङ्ख्यायन सगोत्रागायत्री गायत्री चतुर्विघुंसत्यक्षरा त्रिपदा षट् कुक्षिप्पञ्च विनियोगः ॐ भूः ॐ भुवः ओगं शुवः ॐ महः ॐ जनः ॐ तपः ओगुं सत्यं ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् सुवरो कायत्री उपस्थान उत्तम शिखरे जाते भूम्या पर्वतमूर्धन ब्राह्मणेज्ञा यथा यहां सुदोमया वरदा वेदमादा प्रचोदयन्ती पवने द्विजादा आयुःपृथिव्यां द्रविणं ब्रह्मवर्चस्सं मह्यं दत्त्वा प्रचातुं ब्रह्मलोकम् आदित्यदेवता मन्त्रः कृणिः सूर्य आदित्यो न प्रभावात्यक्षरं मधुक्षरन्ति तद्रसं सत्यं वै तद्रसमापूज्योतिरसो मृदं ब्रह्मभूर्भुवत्सुवरोम् मधु ब्रह्ममेदुमां मधु मधुमेदुमां ब्रह्ममेव मधुमेदुमां यास्ते सोमप्रजावत्सोऽभिसोऽहं दुष्वप्नहन् दुरुश्वः यास्ते सोमप्राणाभिस्ताञ्जुहोमि त्रिसुवर्णमयाचिदं ब्राह्मणाय दध्याद ब्रह्महस्त्यां वा ये देघ्नन्ति ये ब्राह्मणास्त्रिसुवर्णं पठन्ति ते सोमं प्राप्नुवन्ति आसहस्रात् पङ्क्तिं पुनन्ति ॐ ब्रह्ममेधया मधुमेधया ब्रह्ममेव मधुमेधया अद्यानो देवसविधः प्रजा वत्सा वी सौभगं परा दुःस्वप्नियगुंसुव विश्वानि देवसविधर्दुरितानि परासुव यद्भद्रं तन्म आस्सुव मधुमादाहृता यदे मधुक्षरन्दिन्धवः माध्वीर्न सन्तोषधीः मधुनक्तमुतोषसि मधुमत्पार्थिवगुं रजः मधुद्यौरस्तु नः पिता मधुमानो वनस्पतिर्मधुमागुमस्तु सूर्यः माध्वीर्गावो भवन्धु नः य इमं ब्राह्मणाय दद्याद भ्रूणहत्यां वा ये देघ्नन्ति ये ब्राह्मणा त्रिसुपर्णं पठन्ति ते सोमं प्राप्नुवन्ति आसहस्रात् पङ्क्तिं पुनन्ति ओ ब्रह्ममेधवा मधुमेधवा ब्रह्ममेव मधुमेधवा ब्रह्मदेवानां पदवीकवीनां ऋषिर्विप्राणाम् महिषो मृगाणां शेनो गृध्राणागस्वधितिर्पनानागुं सोमः पवित्रमत्येधि रेभन् अगुं स्युषिध्वसुरन्तरिक्षसद्धोधा अद्रिजा ऋतं बृहद रुचेत्वा रुचेत्वा समिश्रवन्ति सरितो न मनसा पूयमानाः कृस्य धारा अभि चाकशीमि वेदसो मध्य आसां तस्मिन् सुपर्णो मधुकृत्कुलायी भजन्नास्ते मधुदेवताभ्यः तस्याः सते हरयः सप्ततीरे स्वधां दुहाना अमृतस्य धारां य इदं त्रिसुपर्णमयाचिदं ब्राह्मणाय दद्याद वीरहत्यां वा ये ये ब्राह्मणा त्रिसुपर्णं पठन्ति ते सोमं प्राप्नुवन्ति आसहस्रात् पङ्क्तिं पुनन्ति ओ मेधा सूक्तम् मेधा देवी भद्रा सुमनश्यमाना त्वया जुष्टानुदमाना दुरुक्तान् बृहद्वदेमविदधे सुवीराः त्वया जुष्टऋषिर्भवदि देवि त्वया ब्रह्मा गदश्रीरुद त्वया त्वया जुष्टश्चित्रं विन्ददे वसुसानो जुषस्वद्रविणो न मेधे मेधां मयिन्द्रो ददादु मेधां देवी सरस्वती मेधामे मे अश्विनाबुभा वा धत्तां पुष्करस्रधा अप्सरा सुचया मेधा गन्धर्वेषु च यन्मनः दैवीं मेधा सरस्वती सा मां मेधा सुरभिर्जुषधा गुस्वाहा आमां मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगदीजगम्या ऊर्जस्वदीपयसा पिन्वमाना सा मां मेधा सुप्रतीका जुषन्तां मयि मेधां मयि प्रजां मय्यग्निस्तेज्यो दधादो मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु मृत्युनिवारणमन्त्राः अपैदु मृत्युरमृतन्न आगन्वैवस्वदोनो अभयं कृणोतु पर्णं वनस्पदेवाभिनः शीयतागुं रयित्सचतान्नः शचीपतिः परं मृत्यो अनुपरे हि यस्ते स्व इतरो देवयानाद चक्षुष्मदे शृण्वते ते दे। ब्रवीमि मा रीरिशो मोदवीरान् वादं प्राणं मनसान् वारभामहे प्रजापदीयो भुवनस्य गोपाः स नो मृत्योऽस्त्रायतां पात्वगुंहसो जोग्जीवा जरामशीमही अमुत्र भूया दद यध्यमस्य बृहस्पदे अभिषस्तेरमुञ्च प्रत्यौहदामश्विना मृत्युमस्माद्देवानामग्ने विषजा शचीभिः हरिगुंहरन्दमनुयन्दिदेवा विश्वस्येशानं वृषभं मनुमेदमागा ब्रह्मस्वरूपमनुमेधमागाधयनं मा विबधिर्विक्रमस्व शल्कैरग्निमिन्धान उभौ लोकौ सनेमहम् उभयोर्लोकयोर् ऋध्वादिमृत्युं तराम्यहं माच्छिदो मृत्यो मा बधिर्मा मे बलं विभृहो मा प्रमोषीः प्रजां मा मे रीरिष हविषाविधेम मानो महान्तमुदमानोऽर्भगं मान उक्षन्दमुदमान उक्षिदं मा नो वधीफिधरं मोदमादरं प्रिया मानस्तनुवो रुद्ररीरिषः मानस्तोगेतनये मान वीरान्मानो रुद्रभामितो वधीर्घविष्मन्दो नमसा विधेमते। प्रजापदि प्रार्थना प्रजापतिप्रार्थनामन्त्रः प्रजापदे नत्वदेधान्यन्यो विश्वाजातानि परिता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वयघृश्यामपतयो रयीणाम् इन्द्रप्रार्थना मन्त्रः स्वस्तिदाविशस्पदेर्वृत्रः विमृधो वशी वृषेन्द्रः पुरयेतु नः स्वस्तिदा अभयङ्करः मृत्युं जय मन्त्राः त्र्यम्पं यजामहे सुगन्धिं पुष्टिवर्धनम् पूर्वाजुकमिव बन्धनान् मृत्योर्मुक्षीयमामृताद ये ते सहस्रमयुदम् पाशा मृत्यो मर्त्याय हन्धवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा वसुप्रार्थना मन्त्राः यद्वो यद्वोद्देवाश्चकृमजिह्वया गुरुमनसो वा प्रयुती देवहेडनम् अरावायो नो अभिदुच्छुना यदेतस्मिन् तदेनो वसवो निधेतनः स्वाहा कामो कार्षीत् मन्युरकार्षीत् मन्त्रः नमः कामो कार्षीत् कामः करोति नासं करोमि कामः कर्ता नाहङ्कर्ता कामः कारयिता नाहङ्कारयिता येष कामकामाय स्वाहा मन्युरकार्षीन् नमो नमः मन्युरकार्षीन् मन्युः करोति नाकं मन्युः कारयिता नाहङ्कारयिता एष ते मन्यो मन्यवे स्वाहा पापनिवारका मन्त्राः देवकृतस्यै न सो वयजनमसि स्वाहा मनुष्यकृतस्यै न सो वय जनमसि स्वाहा पितृकृदस्यै न सो वय जनमसि स्वाहा आत्मकृदस्यै न सो वय जनमसि स्वाहा यत्स्वपन्तश्च जाग्रतश्चैनश्चक्रमतस्या वयज नमसि स्वाहा यत् सुषुप्तश्च जाग्रतश्चैनश्चक्रमतस्याद्वाँंसश्च विद्वाँुंसश्चैनश्चक्रमतस्या वय जनमसि स्वाहा येन स येन सोवयजनमसि स्वाहा विराजा होममन्त्राः तिलाञ्जुहोमि सरसागुं सपिष्ठान् गन्धारमममममममममममम चित्ते रमन्तु स्वाहा हिरण्यं धनमन्नपानगुं सर्वेषा गुश्रियै स्वाहा श्रियं च लक्ष्मीञ्च पुष्टिं च कीर्तिं चानृण्यदां ब्रह्मण्यं बहुपुत्रदां श्रद्धा मेधे प्रजास्सन्द दुः स्वाहा तिला चोरस्यान्नं नवशाद्धं ब्रह्महा गुरुतल्पगः गोस्तेयगुं सुरापानं भ्रूणहत्या तिलाशान्दिगुं शमयन्धुस्वाहा श्रीश्च लक्ष्मीश्च पुष्ठिश्च कीर्तिं च नृण्यतां ब्रह्मण्यं बहुपुत्रताम् श्रद्धा मेधे प्रज्ञादुजादवे दसन्तः स्वाहा प्राणापानव्यानोदानसमाना मे शुध्यन्तां ज्योतिरकम्बिरजा पि पाप्मा भूयासघ्स्वाहा वाङ्मनश्चक्षुश्रोत्रजिह्वाघ्राणरेदो बुद्ध्या हूदिस्सङ्कल्पा मे शुद्ध्यन्तां ज्योतिरकं विरजा विपाप्मा भूयासघ् स्वाहा त्वक्चर्ममागं सरुधिरमेधो मज्जास्नायवोऽस्तीनि मे शुध्यन्तां ज्योतिरकं विरजा विपाप्मा भूयात्सग् स्वाहा पायवो मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासग् स्वाहा उत्तिष्ठपुरुषहरितपिङ्गलोकिताक्षि देहि देहि ददापयिता शुध्यन्दां ज्योतिरकं विरजा विपाप्मा भूयासघ् स्वाहा पृथिव्यापस्थेजो वायुराकाशा मे शुध्यन्दां ज्योतिरकं विरजा विपाप्मा भूयासघ् स्वाहा शब्दस्पर्शरूपरसगन्धा मे शुभ्यन्तां ज्योतिरकं विरजा विपाप्मा भूयास्सघ् स्वाहा मनोवाकाय कर्माणि मे शुभ्यन्तां ज्योतिरकं विरजा विपाप्मा भूयासघ् स्वाहा अव्यक्तभावैरहङ्कारै ज्योतिरकं विरजा विपाप्मा भूयासग् स्वाहा आत्मा मे शुद्ध्यन्दां ज्योतिरकं विरजा विपाप्मा भूयास्ग् स्वाहा अन्तरात्मा मे शुद्ध्यन्दां ज्योतिरकं विपाप्मा भूयास स्वाहा परमात्मा मे शुध्यन्तां ज्योतिरकं विरजा पि पाप्मा भूयासघ् स्वाहा क्षुधे स्वाहा क्षुत्पिपासाय स्वाहा सुक्पिपासामलाञ्ज्येष्ठामलक्ष्मीर्नाशयाम्यहम् अभूदिमसमृद्धिं च सर्वान्निर्नुद मे पाप्मानघ् स्वाहा अन्नमयप्राणमयमनोमय विज्ञानमयमानन्दमयमात्मा मे शुध्यन्तां ज्योतिरकं विरजा विपाप्मा भूयासघ् स्वाहा वैश्वदेवमन्त्राः अग्नये स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा ध्रुवाय भूमाय स्वाहा ध्रुवक्षितये स्वाहा अच्युतक्षितये स्वाहा अग्नये स्विष्टकृते स्वाहा धर्माय स्वाहा अधर्माय स्वाहा अद्भ्यः स्वाहा ओषधिवनस्पदिभ्यः स्वाहा रक्षोदेवजनेभ्यः स्वाहा गृहाभ्यः स्वाहा अवसानेभ्यः स्वाहा अवसानपदिभ्यः स्वाहा सर्वभूतेभ्यः स्वाहा कामाय स्वा अन्तरिक्षाय स्वाहा यदे यदि जगदि यच्च चेष्टदिनाम्नो भागोयं नाम्ने स्वाहा पृथिव्यै स्वाहा अन्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यः स्वाहा इन्द्राय स्वाहा बृहस्पतये स्वाहा प्रजापतये स्वाहा ब्रह्मणे स्वाहा स्वधा पितृभ्यः स्वाहा नमो रुद्राय पशुपतये स्वाहा देवेभ्यः स्वाहा पितृभ्यः स्वधास्तु भूदेभ्यो नमः मनुष्येभ्यो हन्ता प्रजापदये स्वाहा परमेष्ठिने स्वाहा यथा कूपशतधारसहस्रधारो अक्षितः एवा मे अस्तु धान्यगुं सहस्रधारमक्षितं धनधान्यै स्वाहा ये भूदा प्रजरन्ति दिवानक्तं बलिमिच्छन्तो विदुदस्य प्रेक्ष्याः तेभ्यो बलिं पुष्टिकामोहरामि मयि पुष्टिं पुष्टिपदिर्दधातु स्वाहा ॐ तद्ब्रह्म ॐ तद्वायुः ॐ तदात्मा ॐ तत्सत्यं ॐ तत्सर्वम् ं तत्पुरो नमः अन्धश्चरदि भूतेषु गुहायां विश्वमूर्तिषु त्वय्यज्ञस्त्वं वषत्कारस्त्वमिन्द्रस्त्वं रुद्रस्त्वं विष्णुस्त्वं ब्रह्मत्वं प्रजापदिः त्वं तदाप आपोज्यो धीरसो मृदं ब्रह्म सुवरो प्राणाहुदिमन्त्राः श्रद्धाया आं प्राणे निविष्ठो मृदञ्जुहोमि श्रद्धाया मपाने मृदञ्जुहोमि श्रद्धाया अं मृदञ्जुहोमि श्रद्धाया मुदाने मृदञ्जुहोमि श्रद्धाया गुमसमाने मृदञ्जुहोमि ब्रह्मणि आत्मा मृदत्वाय अमृतोपस्तरणमसि श्रद्धायां प्राणे निविष्ठो मृदञ्जुहोमि शिवो मा विश्वाप्रदाहाय प्राणाय स्वाहा श्रद्धायामपाने निविष्ठो मृदञ्जुहोमि शिवो मा, मा विश्वाप्रदाहाय अपानाय स्वाहा श्रद्धायां व्याने निविष्ठो मृदञ्जुहोमि शिवो मा विश्वाप्रदाहाय व्यानाय स्वाहा श्रद्धायामुदाने निविष्ठो मृदञ्जुहोमि शिवो मा विश्वाप्रदाहाय उदानाय स्वाहा श्रद्धायागुं समाने निविष्ठो मृदञ्जुहोमि शिवो मा विशाप्रदाहाय समानाय स्वाहा ब्रह्मणिम आत्मा मृतत्वाय अमृतापिधानमसि भुक्तान्नाभिमन्त्रणमन्त्राः श्रद्धायां प्राणे निविश्यामृदगुं हुदं प्राणमन्येनाप्यायस्व श्रद्धायामपाने निविश्यामृदगुं हुदम् अपानमन्येनाप्यायस्व श्रद्धायां याने निविश्यामृदगुं हुदम् व्यानमन्येनाप्यायस्व श्रद्धाया मुदाने निविश्या मृदगुं हृदम् उदानमन्येनाप्यायस्व श्रद्धाया गुं समाने निविश्या मृदगुं हुदं समानमन्येनाप्यायस्व भोजनान्ते आत्मानुसन्धानमन्त्राः अङ्गुष्टमात्रः पुरुषोऽङ्गुष्टञ्च समाश्रितः ईश सर्वस्य जगतः प्रभुः प्रीणातिविश्वभुक् अवयवः स्वस्थथा प्रार्थना मन्त्राः त्वाङ्म आसन्नसोः अक्ष्योश्चक्षुः कर्णयोः श्रोत्रम् बाहुवोर्बलम् ऊरुवो रोजः रो अरिष्ठा विश्वान्यङ्गानि तनुः तनुवामे सह नमस्ते अस्तु मामा इगुंसीः इन्द्रसप्तर्षिसंवादमन्त्राः वयः सुपर्णा उपसेन्दुरिन्द्रं प्रियमेद्धा ऋषयो नाधमानाः अपध्वान्दमूर्नुहि पूर्धिचक्षुर्मुमुग्ध्यस्मान्निधयेवबद्धान् हृदयालम्भनमन्त्रः प्राणानां ग्रन्थिरशिरुद्रो मा विशान्तकः तेना नेना प्यायस्व, देवदा तेनाप्यादा निपण मंत्रय विष्णव मृत्युमेंे पाही अग्निस्तुतिमंत्रुस्तमाशुषुक्षणिस्व्य स्वन नेभ्यस्त्वमोषधिभ्यस्त्वं नृणान्नृपदे जायसे शुचिः अभीष्टयाचनामन्त्राः शिवेन मे सन्दिष्टस्वस्योनेन मे सन्दिष्टस्व सुभूतेन मे सन्दिष्टस्वब्रह्मवर्चसेन यज्ञस्यर्धिमनुसन्दिष्टस्वोपते यज्ञ नम उपते नम उपते नमः परतत्त्वनिरूपणम् सत्यं परं परगुं सत्यगुं सत्येननसुवर्गाल्लोकाच्य वन्दे कदाचन सदा गुंहि सत्यं तस्मात् सत्ये रमन्ते तप इति तपो नशनात् परय्यद्धि परं तपस्तद्दुधर्षं तद्दुराद्धर्षं तस्मात्तपसि रमन्ते दमयिदि नियदं दमे रमन्ते शम इत्यरण्ये मुनयस्तस्माच्छ मे रमन्दे दानमिति सर्वाणि भूतानि प्रसगुं सन्ति दानादिदुश्चरं तस्मात् दाने रमन्दे धर्म इति धर्मेण सर्वमिदं परिगृहीतं दं। धर्मान्नादिदुष्करं तस्माद्धर्मे रमन्दे प्रजन इति भूयागुंसस्तस्माद्भूयिष्ठा प्रजायन्ते तस्माद्भूयिष्ठा प्रजनने रमन्ते ग्नय इत्याहतस्मादग्नय आधातव्यात् अग्निहोत्रमित्याहतस्मा दग्निहोत्रे रमन्ते यज्ञ इति यज्ञो हि देवास्तस्माद्यज्ञे रमन्ते मानसमिति विद्वागुंसस्तस्माद्विद्वागुंस एव मानसे रमन्दे न्यास इति ब्रह्मा ब्रह्मा हि परः परो हि ब्रह्मा तानि वा एतान्यवराणि परागुंसिन्यास ये, परागुं ये वात्यरे च यद्येवं वेदेत्युपनिषत् ज्ञानसाधननिरूपणं प्राजापत्योहारुणिः सुपर्णेयः प्रजापदिं पितरमुपससारकिं भगवन्तः परमं वदन्दीदि तस्मै प्रोवाच सत्ये न दित्यो रोचते दिवि सत्यं वाचः प्रदिष्ठा सत्ये सर्वं प्रतिष्ठितं तस्मात् सत्यं परमं वदन्ति तपसा देवा देवतामग्र आयन् तपसर्षयः सुवरन्वविन्दन्तपसा सपत्नान् प्रणुदामारादीस्तपसि सर्वं प्रतिष्ठितं तस्मात्तपःपरमं वदन्ति दमेन दान्धाकिल्बिषमवधून्वन्दि दमेन ब्रह्मचारिणः दुराधर्षं दमे सर्वं प्रतिष्ठितं तस्मात् परमं वदन्ति शमेन शान्ता शिवमाचरन्ति शमेन नागं मुनयोन्वविन्दन् छमो भूतानां दुराधर्षं छ मे सर्वं प्रतिष्ठितं तस्माच्छमः परमं वदन्ति दान यज्ञानां वरुधन् दक्षिणालोके दाता रघुं सर्वभूदान्युपजीवन्ति दाने नाराधीरपानुदन्तदानेन द्विषन्दो मित्रा भवन्ति दाने सर्वं प्रतिष्ठितं तस्माद्दानं परमं वदन्ति धर्मो विश्वस्य जगतः प्रदिष्टालोके धर्मिष्ठं प्रजा उपसर्पन्ति धर्मेण पापमपनुदधि धर्मे सर्वं प्रतिष्ठितं तस्माद्धर्मं परमं वदन्ति प्रजननं वैप्रतिष्ठालोके साधु प्रजाया स्तन्तुं तन्वानप्यतृणामनृणो भवदि भवदितदेव तस्य अनृणं तस्मात् प्रजननं परमं वदन्त्यग्नयो वैत्रयी विद्या देवया नः गार्हपत्य ऋक्पृथिवीरधन्तरमन्वाहार्यपचनयजुरन्तरिक्षं वामदेव्यमाहवनीयशामसुवर्गो लोको बृहत्तस्मादग्नीन् परमं वदन्त्यग्निहोत्रगुंसायं प्रादर्गृहाणाम् निष्कृधिस्विष्ठगुं सुहृदैयज्ञक्रतूनां प्रायणगुं सुवर्गस्य लोकस्य ज्योतिस्तस्मादग्नि होत्रं परमं वदन्ति यज्ञ इति यज्ञेन हि देवादिवङ्गता यज्ञेन सुरानपानुदन्तयज्ञेन द्विषन्तो मित्रा भवन्ति यज्ञे सर्वं प्रतिष्ठितं तस्माद्यज्ञं परमं वदन्ति मानसं वै प्राजापत्यं पवित्रं मानसे मनसा साधु पश्यदि मानसा ऋषयः प्रजा मानसे सर्वं प्रतिष्ठितं तस्मान् मानसं परमं वदन्ति न्यास इत्याहुर्मनीषिणो ब्रह्माणं ब्रह्मा विश्वकदमस्वयम्भूप्रजापति संवत्सर यदि संवत्सरो सावादित्यो येष आदित्ये पुरुषः स ब्रह्मात्मा याभिरादित्यस्तपदि रश्मिभिस्ताभिः पर्जन्यो वर्षदि पर्जन्ये नौषधि प्रजायन्त ओषधिवनस्पतिभिरन्नं भवत्यन्नेन प्राणाः प्राणाैर्बलं बलेन तपस्तपसा श्रद्धा श्रद्धया मेधा मेधया मनीषा मनो मनसा शान्तिशान्त्या चित्तं चित्तेन स्मृतिग्स्मृत्या स्मारग्स्मारेण विज्ञानं विज्ञानेनात्मानं वेद यदि तस्मादन्नं दधन् सर्वाण्येतानि तदा त्यप्राणा भवन्ति भूतानां प्राणार्मनो मनसश्च विज्ञानौ विज्ञानादानन्दो ब्रह्म योनिस्सवा एष पुरुषः पञ्चधा पञ्चात्मा येन सर्वमिदं प्रोधं पृथिवी चान्दरिक्षं च द्यौश्च दिशश्चावान्तर दिशाश्च स वै सर्वमिदं जगत्सम्भोदगुं स भव्यम् जिज्ञा सक्लृप्तऋतचार्ययिष्ठा श्रद्धा सत्यो महस्वान्तपसोपरिष्ठा ज्ञात्वा तमेवं मनसा कृता जूयो न मृत्युमुपयाहि विद्वान् तस्मान्यास मेषां तपसा मधिरिक्तमाहो वसुरण्वो विभूरसि प्राणे त्वमसि सन्थादा ब्रह्मन् त्वमसि विश्वधृते ज्योदास्त्वमस्यग्नेरसि वर्चोदास्त्वमसि सूर्यस्य जुम्नो दास्त्वमसि चन्द्रमस उपयाम ब्रह्मणे त्वा महस ओमित्यात्मानयुञ्जीतैतद्वै महोपनिषदं देवानां गुह्यं य एवं वेदब्रह्मणो महिमानमाप्नोदि तस्मात् ब्रह्मणो महिमानमित्युपनिषत् ज्ञानयज्ञः तस्यैवं विदुषो यज्ञस्यात्मा यजमानश्रद्धा पत्नी शरीरमिध्ममुरो वेदेर्लोमानि बर्हिर्वेदशिखा हृदयं यो भकाम आज्यं मनुः पशुस्तपोऽग्निर्दमः शमयिदा दक्षिणा वाग्धोदा प्राण उद्गादा चक्षुरध्वर्योर्मनो ब्रह्मा श्रोत्रमग्नीध्यावद्ध्रियदे सोमपानं यद्रमदेतदुपसदो यत्सञ्चरत्युपविशत्युत्तिष्ठते च सप्रवर्ग्यो यन्मुखं तदाहवनीयो याव्याहृदिराहृदिर्यदस्य विज्ञानं तज्जुहोदि यत् सायं यत्प्रादर्मध्यन्दिनगुंसायञ्चतानि सवनानि ये अहोरात्रे ते दर्शपूर्णमासौ ये मासाश्च ते चातुर्मास्यानि य ऋतवस्थे पशुबन्धा ये, ये संवत्सराश्च परिवत्सराश्च ते हर्गणाः सर्ववेदसं वा ये दत्सत्रं यन्मरणं तदवभृदयेदद्वै जरामर्यमग्निहोत्रगुं सत्रय्य एवं विद्वानुदगयने प्रमीयते देवानामेव महिमानं गत्वादित्यस्य सायुज्यम् गच्छत्यथयो दक्षिणे प्रमिय पितृणामेव महिमानं गत्वा चन्द्रमसः सायुज्यगुं सलोकतामाप्नोत्ये तौ वै सूर्याचन्द्रमसौ महिमानौ ब्राह्मणो विद्वान् अभिजयधि तस्माद् ब्रह्मणो महिमानमाप्नोति तस्मात् ब्रह्मणो महिमानमित्युपनिषद् सहनावतु सहनौ भुनक्तु सह वीर्यङ्करवा वहै तेजस्विनावधितमस्तु मा विद्विषावहैः ॐ शान्ति शान्तिशान्तिः इति महानारायणोपनिषत्समाप्ता